भक्ता तावत् कलौ स्यूर्दमिन बुवित तु भूरिशस्तत्र चोचैः कावेरीम् ताम्रपर्णीम् अनुकिल कृतमालाम् च पुण्याम् प्रतीचेम् मामप्येदम् मा सर्भवमपि च विभो त्वयि आशापाशै निबध्य भ्रमय न भगवन्